गरुडपुराणम् आचारकाण्डम् अध्यायम् 21 सूद उवाच पञ्चवक्त्रार्चनम् वक्ष्ये पृथव्यद्भुक्तिमुक्तिदम् ओम् भूर्विष्णवे आदिभूताय सर्वाधाराय मूर्तये स्वाहा सद्योजादस्य चाह्वानमनेन प्रथमम् चरेद ं सत्यो जागायैव कला ह्यष्ठौ प्रकीर्तिताः सिद्धिर्विद्धिर्धृधिर्लक्ष्मीर्मेधा कान्दिस्वधास्तिधिः ॐ वामदेवायैव कलास्तस्य त्रयोदश रजारक्षारधिपाल्या कान्तिस्तृष्णा मधिक्रिया कामा बुद्धिश्च रात्रिश्चत्रास्नी मोहिनी तथा मनोन्मनी अखोरा च तथा मोहाक्षुद्धा कलाः निद्रामृत्युश्च माया च अष्टसङ्ख्या भयङ्कर ॐ तत्पुरुषायैव निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिर्न केवल ॐ हौं ईशानाय नमो निश्चला च निरञ्चना शशिनी चाङ्गना चैव मरीचिर्ज्वालिनी तधा। इति श्रीगारुडे महापुराणे आचार आचारकाण्डे पञ्चवक्रपूजनम् नामैकविंशोऽध्यायः ओम्